हरि ओम् श्री सीतारामचन्द्रभ्यां नमः अथ श्रीमद्वाल्मीकिरामायणे अयोध्याखण्डे चतुर्थ स्वर्गः श्वो रामाभिषेकं निश्चित्य राज्ञा मन्त्रं प्रेष्य तेन समानितं श्रीरामं प्रति किञ्चिदावश्यकं निवेद्य तस्य स्वगृहे प्रस्थापनं श्रीरामेण कौसल्याभवनं गत्वा मातरं प्रति स्वाभिषेकवृत्तस्य सूचनम् मातुराशिषम् प्राप्य लक्ष्मणेन सह प्रेमपूर्वकं वार्तालापं कृत्वा स्वकीये भवने तस्य गमनम् गतश्वथ नृपोभूय पौरेषु सह मन्त्रिभिः मन्त्रयिता ततश्चक्रे निश्चयज्ञा स निश्चयम् श्व एव भवति श्वोभिषे च मे युवराज इति प्रभु अशान्त गृहमाविश्य राजा दशरथ ततः सूत मां मन्त्रयामास रामं पूर्णय प्रतिगृह्य तु तद् वाक्यं श्रुतः पूनरुपाययो रामस्य भवनं शीघ्रम् रामम् आनयितुं पुनः स्वास्थ्यवेदितं तस्य रामायागमनं पुनः श्रुत्वैव चापि रामर्थम् प्राप्तं चङ्कान्वितो भवेत् प्रवेश्य चैनं त्वरितो रामो वचनम् अब्रवीत् यदागमनकृत्यं ते भूयस्तद्रूह्य चेचतः तम्वाच तदश्रुतो राजा तां द्रष्टुमिच्छति श्रुत्वा प्रमाणं तत्र गमनायतरयव इति सूत एव च श्रुत्वा रामोऽपि त्वरयान्वितः प्रययो राजभवनम् पुनर्द्रष्टुम् नरेश्वरं तं श्रुत्वा समनुप्राप्तम् रामं दश रथो नृपे प्रवेशयामास गृहम् विवक्षु प्रियमुत्तमम् प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः ददर्श पितरं दूरा प्रणिप्रत्य कृताञ्जलिः प्रणमन्तं तमुत्थाप्य सम्परिष्व जूमिपः उपदिश्य चासनं चास्मै रामं च पुनरब्रवीत् राम वृद्धोऽस्मि दीर्घायु भुक्ता अन्नवद्धी कृ यथेष्टं भूरी दातमिष्टम् अपत्यम् मे तम् मद्यानुपमम् भुवि दत्तम् इष्टम् अधीतं च मया पूरुषत्तमा अनुभूतानि तिष्टानि मया वीर सुखान्यपि देवर्षि पितृविप्राणाम् अनृणोस्मि तथात्मनः न किञ्चिन् मम कर्तव्यम् तवान्यत्राभिषेचन अतो यत्त्वा मम ब्रूयम् तन्वेषं कर्तुमर्हति अद्य प्रकृतय सर्वा तम् इच्छन्ति नरधिपम् अतः तां युवराजानम् अभिषेक्ष्यामि पुत्र अपि राम सप्तान् पश्यामि राघव स निर्घात दिवोलकाश पतंती महासुन अवस्टाध मेरा नक्षत्र दारुण गृ आवेदय सूर्य कलाहुवि प्रायण च निमित्ता दृशा समुदव राजा ही मृत्यु आपनोति गोरा चा पद तद्यावदेव मे चेतो न विमोह्यति राघवे तावदेवाभिषिञ्चस्वे चलाहि प्राणिनां मतिः अद्य चन्द्रोभ्युपगमत् पुष्यात् पूर्वं पुनर्वसु स्वपुष्ययोगं नियतम् रक्षन्ते रैव चिन्तकः तत् मनस्सरयत्येव स्वाहम् अभिषेक्ष्यामि यौवराजे परन्दप तस्मात्पयाद्य प्रभृति निजेयं नियतात्मनः सह बद्धोपवस्तव्य दर्भ प्रस्तर्शायिणा सुहृदयश्चाप्रमत्तास्ताम् रक्षन् तद्य समन्त भवन्ति बहुविघ्नानि कार्याण्येवंविधानि पिप्रोषितश्च भरतो यावदेव पुरादितः तावदेवभिषेकस्ते प्राप्तकालो मतो मम कामम् खलु सतां वृत्ते भ्राता ते भरत स्थितः ज्येष्ठानुवर्ति धर्मात्मा सानुक्रोशो जितेन्द्रियः मनुषाण अति मे मत सता धर्म निर्तशो चुश सोभ्युत शोभानिषेचले ब्रजतिमितरम अभिवाद्यावीश चात्मो वैश्मेच तत्क्षणादेव निष्क्रम्य मातुवन्तः पुरं ययौ तत्र तां प्रवणामेव मातरं क्षमवासिनीं भाग्यतां देवतागारे दर्शा याचतिं श्रियं प्रागेव चागता तत्र सुमित्रा लक्ष्मण तदा सीता च नयिता श्रुत्वा प्रियं तस्मिन् कालेऽपि कौसल्या सूमिते क्षण सुमित्रयान्वास्यमान सीतया लक्ष्मणेन च धृत्वा पुष्ये च पुत्रस्य यौवराज्येऽभिषेचनम् प्राणायामेन पुरुषम् जायमाना जनार्दनम् तथा स नियमाम् एव सोऽभिगम्याभिवाद्य च चे वचनं रामो हर्षयन्तामिदम्बरम् अम्बपित्र नियुक्तोऽस्मि प्रजापालनकर्मणि भविता श्वोभिषेको मे यथा शासनम् पितुः प्रीत्यापि उपवस्तव्या रचनीयं मया सह एवम् उक्तम् उपाध्यायै स पिता यानी अनेत्राने सोफा विनिषेचने मंगला नद्य वैदे कार्य एकु सुकौसल्या चिका हर्ष बाजायक्यंम राम भाषते, वत्स राचरंजीव हतासे पीपंथ ज्ञातिमे तम् श्रियायुक्ते सुमित्रा याश्च कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक येन त्वया दशरथो गुणै आराधितपिता अमोघम् बत मेक्षान्तम् पुरुषे पुष्करे क्षणे येयम् मुक्तो भ्रतरम सांजलि प्रभमा सीनम अभीवीक्ष स्मयन लक्ष्मण मैयासुंधर द्वितीय मेन्तरात्म सापस्थित स्व मिथ्व भोगातराज फल निच जीवितं चापि राज्यं च चा तदर्थम् अभिकामये इत्युक्त्वा लक्ष्मणं रामो मातरो अभिवाद्यच च अभ्यनुज्ञा च यवसं च निवेशने इत्याश्री श्रीमद् रामायणे वाल्मीकि अधिकारे अयोध्याखण्डे चतुर्थः सर्ग श्रीसीतारामचन्द्रार्वणमस्तु